अथ सङ्कष्टनाशनगणेशस्तोत्रम् प्रणम्यशिरसा देवम् गौरीपुत्रम् निलायकम् भक्तावासंस्मरे नित्यम् आयुःकामार्थसिद्धये प्रथमम् वक्रतुण्डम् च एकदन्तम् द्वितीयकम् तृतीयम् कृष्णलिङ्गाक्षम् गजवक्त्रम् चतुर्थकम् लम्बोदरम् पञ्चमम् च षष्ठम् विकटमेव च सप्तमम् विघ्नराजेन्द्रम् धूम्रवर्णम् तथाष्टकम् नवमं बालचन्द्रम् दशमं तु विनायकम् एकादशं गणपतिम् द्वादशम् तु गजाननम् द्वादशैतानि नामानि त्रिसन्ध्यम् यः पठेन्नरः न च विघ्नपयम् तस्य सर्वसिद्धिकरम् प्रभो विद्यार्थी लभते विद्या धनार्ची लभते धनम् पुत्रार्थी लभते पुत्रा मोक्षार्थी लभते गतिम् लमे गणपति स्तोत्रम् षड्भिर्मासे फलम् लभे संवत्सरेण सिद्धिम् च लभतेनाद्रसंशयः अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः